हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे द्वितीयस्कन्धे द्वितीयोऽध्यायः श्रुतो वाच एकदा तीर्थयात्रायां व्रजन् पाराशरोमुनिः आजगाम महातेजाकालिजातदमुत्तमं निषादमाह धर्मात्मा कुर्वन्तं भोजनं तदा प्रापयस्व परम्पारं कालिन्य उडुपेन मां दाश्रुत्वम् नैर्वाक्यम् कुर्व नो भोजनम् तटे उवाच सां स्ताम् बालाम् मत्स्यगन्धां मनोरमाम् उडुपेन परम्पारं न यश्व गन्तुकामोऽस्ति धर्मात्मा तापसोऽयं शुचिस्थिते इत्युक्ता सा तदा उडुपे मुनिमासीनं संवाहयति भामिनि प्रयसूर्य सुतातो ये भावित्वा दैवयोगतः कामातस्तु मुनिर् जातो दृष्ट्वा तां चारुलोचनां ग्रहीतु कामश्च मुनि दृष्ट्वा व्यञ्जत यौवनां दक्षिणेन करेण अस्तु दक्षिणे करे संवाचासितापाङ्गी मित्पूर्वमिदं वचः कुलस्य सदृशं वा किं श्रुतस्य तपसश्च किं तं वै वसिष्ठधाय दै कुलशील समन्वितः किं चिकीर्षसि धर्मज्ञ मन्मथेन प्रपीडितः दुर्लभम् मानुषं जन्म भुवि ब्राह्मण सत्तमः तत्रापि दुर्लभं मन्ये तं विशेषतः कुलेन शीलेन तथा श्रुतेन दृढतमस्तं किल धर्मविच अनर्यभावम् कथमागतोऽसि विप्रेन्द्र वी मां वीक्ष मीनगन्धा मदीये शरीरे रयामोघबुद्धे शुभं किं समालोक्यपाणिं गृहीतुम् समीपं समायासि कामातुरस्तम् कथं नाभिजानासि धर्मं स्वकीयम् अहो मन्दबुद्धिर्विजोऽयं ग्रहीष्यन् जले मग्न एवाद्य मां वै गृहीत्वा मनो व्याकुलं पञ्चबाणातिविधम् न कोऽपि ह्यक्ते प्रतिपङ्गीकर्तुम् इति सञ्चिन्त्य बाला तं वाच मामुनिम् धैर्यं कुरु महाभाग परं नया पारं नयामि वै सुवाच पराश्चरस्तु तच्छ्रुत्वा वचनं हितपूर्वकं करं त्यक्त्वा स्थितस्तत्र सिन्धो पारं गतः मुनिं कामातुर वेपमानातु सा कन्या पुरस्थितं दुर्गन्धांश्रेष्ठं कथं त्वं नोपशङ्गसे सब रूपयो काम संयोगस्तु सुखा वह सह कन्या क्षण भात्रेण भामनी कृता गुस रूपना वृगना भी सुगंध काम सुमनोहर जग्रह दक्षिणे पाण है गृही काम तम प्रा न सत्यवती शुभा मुने पश्यति लोकोऽयं पिता चैव तदस्थितः पशुधर्मोन् मे प्रीतिं जनयत्यतिरारुणः प्रतिक्षत्र मुनिष्यश्च यावै रात्रौ विवाह्य उद्दिष्टो दिवा न मनुष्यश्च दिवासङ्गे भान् दोष पश्यन्ति किल मानवः कामं यच्छ महाबुद्धे लोकनिन्दाधुरा सदा तच्छ्रुत्वा वचनन्तस्य युक्तमुक्तमुदारधि निहारं कल्पयामास शीघ्रम् पुण्यबलेन वै निहारे समुत्पन्ने तते तीतमसायुते कामिनीतं रिह मृदु पूर्वमिदं वचः कन्यशादूल भुक्त्वा गन्ता शिकामतः अमोघवीर्य त्वं ब्रह्मन् कागतेर्मे भवेदिति पितरं किं भ्रवीम्यद्य सगर्भा चेद् भवाम्यहम् तं गमिष्यसि भूत्वां किं करोमि वदस्वत् पराशिरुवाच कान्ते मत्र्यं कृत्वा कन्ये भं तं भविष्यति मुणीष्व च वरम्भीरु यं त्वमिच्छसि भामिनी सत्यवती उवाच लोके न जानीतो हिमानर कन्याव्रतं च मेहन्यात् तथा कुरु द्वयोत्तमः पुत्र च त्वत्समयकामं भवेत् अद्भुतवीर्यवान् गन्धोऽयं सर्वधामे स्यात् यौवनं च नवं नवम् पराशरोवाच शृणु सुन्दरी पुत्रे विष्णु चुचिः भविष्यति च विख्यात सैलोक्ये वरवर्णिनि केनचित् कारणेनाहं जात कामातुरस्त्व कदापि च न सम्भोहो भूतपूर्वो वरानुने दृष्टाश्चाप्तरसामरूपम् सदाहं धैर्यमावहम् दैवयोगेन वीक्षताम् कामस्यवशवो भवन् तत्किञ्चित् कारणं विद्धि दैवं हि दुरतिक्रमम् दृष्ट्वाहं चाति दुर्गन्धां साकसम्भोहमाप्नुयाम् पुराणकर्ता पुत्रस्य भविष्यति वरानुने वेदविद्भागकर्ता च ख्यातश्च भुवनत्रये श्रुतवाच इत्युक्त्वा तां भूत्वा स मुनिसत्तमः जगामीसलिले सा, मुनि सापि सत्यवतेजाता सद्यो गर्भवती सती सुषुवेयम् नासीपे पुत्रं कामम् विवापरं जातमात्री ताम् उवाच स्वमातरम् तपस्यैव मनः कृत्वा गच्छ मातरि यथा कामं गच्छाम्यतः परं तपः कर्तुम् भागे दर्शयिष्यामि वैस्मृते मातर्यदा भवेत् कार्यं तव किञ्चिदनुत्तमम् स्मर्तव्योऽहं तदा शीघ्रम् आगमिष्यामि वामिनि स्वस्थिते सु गमिष्यामि चिन्तां सुखं इत्युक्त्वा निरयो व्यास सापि पितृ दिगं गता दीपेन तस्माद्वैपायनो भवेत् दातमात्रो जगामाचु वृद्धिं विष्णु अंशयो गतः तीर्थे तीर्थे कुतस्नार तपोत्तमम् एवं द्वैपायनो यज्ञे सत्यवत्ताम् पराचरात् चकार वेदशाखा च प्रातं वेदे व्यासनामा वेदवित्तारकरणात् व्यासनामाभवन्मुनिः पुराणसंहिताचक्रे महाभारतमुत्तमम् शिष्यान् अध्यापयामासे वेदान् कृत्वा विभाग च सुमन्तुं जयमिनिं पैलं वैशम्पायनमेव च अचितं देवलं चैव शुकं चैव स्वमात्मजं श्रोतो वाच एतच्च सर्वं कारणं मुनिसत्तम सत्यवत्या सु तस्यापि समुत्पत्ति तथा शुभा संशयोऽयं न कर्तव्यसम्भवे मुनिसत्तमः भवतां चरिते चैव गुणाग्राह्य मुनिरिति कारणाच्च समुत्पत्ति सत्यवत्या यशोदरे पराक्षरेण संयोग पुनः शन्त अन्यथा तु मुनिश्चित्त कामाकुलं भवेत् अनर्यजुष्टं धर्मज्ञ कृतवान् स कथं मुनिः सकारणेयमुत्पत्ति कथिताश्चिणि चत्वा पापाच्च निर्मुक्तो नरो भवति सर्वथा यतैश्वख्यानं शृणोति शुद्धिमान् नरः न दुर्गतिम् अवाप्नोति सुखी भवति सर्वदा इति श्रीमन् देवी भगवते महापुराणे अष्टादशसहस्रयाम् तृतीयस्कन्धे व्यासजन्मवर्णनम् धाम तृतीयोऽध्याय श्रीजगदम्बिकायार्पणमस्तु